गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टिसिक्स् क उवाच शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुधम् एकाकिनं निरीक्ष्यैनं नालिङ्ग्यं च समुचतुः आच्छादयन्तं वदनं व्रीडितं भृशविह्वलम् आभाशमानं कम्बन्दं वादयुक्तमिव पि ोवाच किमर्धं वदसे नैव स्वामवस्थां दुमूकवद ईप्सितं साधयिष्यामि यत् त्रैलोक्य दुर्लभं क पीत्वा वागमृदं तस्य सावधानमना सुदः उवाच पितरं माधुर्निकटे निर्विशंगया पुत्र उवाच भवदात्म्यां गृहीत्वैव योद्धुं यादो विनायकं शरैराशी विशाकारै विशाकारैरसङ्ख्यैर्नाशिता सुराः प्रवर्तिता अशृह्नद्यो भग्ना सेनादुः काश्यपि तद एका महाकृत्या दरीवत्रा स्पृशी करालकेशीपादालचरणापर्वतस्तना आगदा देवसेनाया रक्षणार्थं ममान्तिकं खड्गेन निखदा साधु विव्यधे नैव किञ्चन निक्षिप्ता तया ताददरीभगे भक्षयन्त्येव सर्वाणि शस्त्राणि शरसञ्चयान् सा मां भगे विनिक्षिप्य यादादेवं विनायकं स्निग्धत्वा तत् भगस्याखं चलिदपदिदो भुवि महान्धकारेण ज्ञादपलाय्य गृहमागतः स्नात्वा नदीजले तादव्रीडिदोऽधो मुखस्तदः क उवाच एवम् पुत्रप च श्रुत्वा रौद्रके दुर्जगादतम् उपायम् ते वदामेकम् न चिन्ताम् तदो मुहूत्तमालोक्य ददौ तस्मै महामनम् अखोरस्य सबीजं तमुवाज जनकः शिवं शिवम् ध्यात्वा च सम्पूज्य सोमं च तर्पणं विप्रभोजनं च दशांशदः शिवे प्रसन्ने कुण्डाद्धितुरङ्गो निःसरिष्यति तमालुह्यव्रजरणं जयं प्राप्स्यसि निश्चितं क उवाच श्रुत्वा प्राक्पुत्रो मुदा चदम् ततो लोकं निवार्यैव जग्मदुर्ग्रहमध्यतः उभावा रक्तवसनौ रक्तपुष्पाणि सन्निय शिवं पुपूचतुस्तदा अनुष्ठानं बहुदिनं चक्रदुपरमादराद् अनुष्ठाने चक्रतुरादराद, दुकुण्ठं चक्रतुरादराद् षट्कोणं लक्षणायैर्युक्तं मेखलायोनिसंयुधं तत्राग्निं विधिवस्ताप्यपात्राणि च यथाविधि पञ्चप्रेदासनगदौ जुहुवुस्तौ हविस्तदा स्वजानुभागमांसानि चित्वा चित्वा च भक्रिदः असुहृदेन मांसेन तृप्तो भूपावकस्तदा दशांश हो मे जादे तु पुपूजे वह्निदेवता बलिदानं च कार्याशुच्छित्वा पुत्रशिरस्तदा ईश्वरस्य प्रसादेन पुत्रोस्य पूर्ववद्बभौ ब्राह्मणान् भोजयामास तर्पणान्ते यथाविधि तदोरात्र्यां व्यदीतायामुदिते च दिवाकरे तुरगं कृष्णं स्निग्धाङ्गं बलवत्तरं मनोजवं खेशितेन कम्बयन्तं जगत्त्रयम् पुपूजपरया भक्त्या नीराज्यैनं यथा विधि अलङ्कृत्यालङ्करणैर्मणिमुक्तामयै शुभैः नमस्कृत्य द्विजान् सम्यक् पितरं परिगृह्य च अशिशोधसमारुह्य समश्वंसुरान्तकः शेषसेनां समादाय ययौ शेषं प्रकम्पयन् शास्त्रास्त्रैकवचैशूलैर्भाधिसेनाधनुशरैः आससादरणस्तम्भं तथा सः सुरान्तकः क्रन्दत्सु सर्वसैन्येषु सन्त्रस्ता देववाहिनी व्याप्ते तु राजसाव्योम्नि न प्राज्ञायत किञ्चन पुनरप्यागतो दैत्यसद्यः सेना विघातकः सिद्धिः सेनाचराश्चैव प्राद्रवन् दुःखिता भृशम् दृष्ट्वारणागदम् तम् तु सिद्धिसेना समुद्धिता हेषाभिसिंहनादैश्च नादयन्ती दिगन्तरम् तदशस्त्रप्रहारैश्च विजग्नुरितरेतरं सहस्वप्रहरामिदिप्रबोध्य स्वप्रहरामिति प्रबोध्य जग्नुरोजसा भुविजानुं विनिक्षिप्य शरानाशीविषोमपान् आकर्णं धनुराकृष्य युयुधुस्ते परस्परं खेडानि चान्दरे कृत्वा युयुधुश्च परे स्मृत्वा पूर्वप्रकारं च परिजघ्नुश्च केचन पूर्ववैरमनुस्मृत्य रिपुंश्च क्रे विरूपिणः कोऽपि वीरश्रिया युक्तो रिपुं केशेषु चाग्रहीत पार्ष्णिखादैर्मष्टिखादयः पादयामासभूतले कौ चिन्मत्तौ शिरोखादम् जग्नतुरितरेतरं ततो भग्नां दैत्यसेनां दृष्ट्वा स्रधुसुरान्तकः अश्वं सम्प्रेषयामास सेनां, सेनां सिद्धिविनिर्मिताम् अश्वकेशां समाकर्ण्य केचिन्मूर्च्छा गदा भुवि पतिता अश्वचरणैश्चूर्णिताश्चा परे सुराः त्रिशूलेन हाश्चान्ये खड्गेन च तथा रने बाणजालैरनेकैश्च पादयामास वैसुरान् सर्वस्मिन् हन्यमाने दुःस्वसैन्ये सिद्धयस्तथा पलायनं समालम्ब्य ययुः सर्वा विनायकम् इति श्रीगणेशपुराणे क्रीडाखण्डे पराजयो नाम ष्षष्टितमोऽध्यायः ओम